ओ oh. प्रजवं वा जेतेन यन्ति यत्र सममहः पापा विहीयं वा घेतेन भवन्ति यत्र सममहन्योऽपि प्रजमे यदापसेण प्रतिपद्यतेहन्ति गोभ्येषहण्डविभाग्यमुपहन्यदे सहीयतेजस्मैमुपहदाय व्याहतमेवान् भारद्भ्य समश्रुते व्याहसहीयते तस्मा शमेहण्डविभाग्यमुपहदायच्चमथो गल्वाहे यज्ञस्त्व समर्थ्येन देवास्तुर्गल्लोकमाय यज्ञस्य व्यर्थेनासुरान् पराभावयन्य यज्ञस्य समर्थं तद्यजमानस्य यत् वृद्धन्त पृच्छन्तद्विच्यमेव समागेतत्सत्पराय ्रह्मवदन्ति परिमिता ्रह्मदप्रतिगलराजक्षे प्रतिगलः ्रह्मवादिना वदन्ति किन्वाशमेनान्धान्यमाणो वृन्ते प्राणानन्दाेन्द्रिये लाकाञ्चतुरधि किम् पञ्चमेनेत्रिपञ्चाक्षरा पञ्चमिषोर् सप्तमेने सप्तमधायुषकरे मि किमष्टमेने त्राक्षराल् लायत्रे मिदिकिम् नवमेने सर्वदज्ञाम् एकादशेन एकादशाक्षरान् द्रष्टभमि किन्धाक्षरान् जगतिमित्येतावद्वा अस्ति यावदेन यावदेवास्थ्यम् वृङ्के ेषप्तो द्वादशाहो यत्रयोदशार्थेदहत्वायलीयश्चोदयनीयश्च त्रिदिरात्रे इमे लोकाय लोकानामात्यैः प्राणावै प्रथमो दिरात्र व्यानोऽद्विनीयपाय प्राणामानो धानेष्वे प्रतिष्ठन्नि सर्ववायुर्यन्धिक एवम् विद्वांसस्त्रयोदशरात्रमासतेजदाहुर्वाक् यद्वादशाहस्तान्विच्छन्दर्यन्मध्ये पदासुगा गृहपदेर्वाक्सानुपरिष्टाच्छोन्तरन्धरेण पदासुगा गृहपदेर्वाग्भवति वशवो वैच्छन्दोमान्नम् महा व्रतम् युवरिष्टाच्छन्दोमाणाम् महा व्रतम् कुर्वन्ति पशुरुदैवान्नाद्य प्रतिष्ठन्ति आदित्या अगामयन्तोभयां लोकयोगे चतुर्दश आत्मश्चन्तमाहरन्ते भावेदभयन् लोकयोराभ्रवन् तस्मिंकश्चामुष्मैकश्च जगेवं विद्वागौषश्चतुर्दश रात्रमासयोरेव लोकयोभवन् यस्मिंकश्चामुष्मैकश्चतुर्दश रात्रभवनि सप्तग्रान्याभोषध सप्तारण्याभये रामवरुद्धेयत्वराधीनानि वृष्टानि भवन्ति ेवयम् लोकमभिजयन्ति यत्र ते दीनानि मृष्टानि भवन्ति इममेपदेयम् लोकमभिजयन्ति अत्रयस्त्रिकंशो मध्यस्तो साम्राज्यमेव गच्छन्ति राजो भवतो हि राजानेव समानानाम् भवन्तः परिगृहीत्यै प्रजापतिस्वर्गन् लोकमयेत्तन् देवान्वायन्तानादित्याश्च पशवस्तान्वायन्ते देवा अभ्रमणि पशोनुपागे विष्पदगिलेन् वाग्भण्डयितेभ्यगेत चतुर्दश रात्रम् प्रत्योहन्त आदित्याः पृष्ठे सुवर्गन् लोकमारोहन्तः जामस्मिन्लोके पशून् प्रत्योऽहन् पृष्ठैलादित्यास्मिल्लोक आभ्रमन्तः जामस्मिल्लोके पशवोग एवं विद्वाकंसश्चतुर्दशः भयोरेव लोकयौरुद्ध्रवस्मैश्चामस्मैश्च वृष्टैरेवामस्मिन् लोकरुद्ध्रवन्दिप्रहाभ्यामस्मिन् लोके गौरायम् वायिमानेव लोकानभ्यालोहन्त्य पृष्ठानि सर्विमस्यान् मध्ये पृष्ठानि भवन्ति सर्वसत्ता योजो न्तरमतो मृगदाभ्यामेव यन्त्यसो अनयोरेव प्रतिष्ठन्ते रेवै यज्ञस्यायने सुर्गरं लोकयन्ति परागरं लाकमभ्यारोहन्त्येव पराजेनानि पृष्ठान्यपयन्ति प्रत्यन्त उभयो लोकयो निर्भ्योत्तिष्ठन्ति निर्दशेनास्तासा विरानन्दम् विना विरा, विरा, विरा देवान्नाद्यमवृन्धदेवान् दे परिगृहे इन्द्रमेश्व देवताभिराजेत्सरं व्यावृतमगच्छावशराक्रम् प्रायच्छत्तमाभदत्तेनाभिर्देवताभिर्व्यावृतमगच्छत्य एवं विद्धापञ्चदशराक्रमादरेतमेव पात्मनः भ्यादर्वेण गच्छन् निज्यो निर्गौराजुम् दक्षं गौरसा छन्दो मे यच्छन्दामा भवन्त एव पृष्ठैरवृन्ध्यम् पृष्ठादि भजवच्छन्दामा भोजस्येव वेद्यै भुजप्रयो तिष्ठन्ति पञ्चदश रात्रो भवति पञ्चदशो भद्रो भज्रमेव भ्याजुर्येभ्यः प्रहरञ्जति रात्रा भवितो भवत इन्द्रियस्य परिगृहेत्यै न्द्रो वेशिलैवा प्रतिष्ठितः प्रजापतिमपादश हात्रम् वज्रम् प्रायच्छत्तेनासुरान् पराभाव्य विजित्यस्येव गच्छदृष्कुलाभापञ्चदश हात्रेण इन्द्रियम् आत्मन्नशत्र एवम् विद्वा पञ्चदश आत्रमासुरेभ्याराभाव्य विजित्रस्तेङ्गज्ञष्कुलापात्मानन्य न्ते पञ्चदशो बलमिन्द्रियं देव्यमात्मन्दश एता एव पञ्चदशमादस्तरात्रयोर्धमासु संवत्सरायन्द्रेतस्मात्मसव्यायेता एव सुवर्ग्या पञ्चदशमादस्तरात्रयोधमासुरः संवत्सरा प्रनेदं वत्सरस्वर्गो पृष्ठानि सर्वे सर्गस्या मध्ये पृष्ठानि भवन्तो वैवेर्यं पृष्ठान्यो जगेव वेर्यम् मध्यगोदेव बृहत्र सुन्दराभ्यायन्द्रीजं वासो यन्त्यसो अनयो प्रतिनिष्ठन्ते देवी यज्ञस्य लोकयन्ति पृष्ठान्यपयन्ति प्रत्यन्तोत्तिष्ठन्ति पञ्चदशेतास्तासांशां विराजेवान्नाद्य प्रतिष्ठन्ति गे पशो ना परिगृहेत्यये गामयतान्नादश्चावरुद्ध सप्तदशरात्रमश्यक्तमाहरक्तेनायजतो विद्वाघोषः सप्तदश रात्रमासते नादागेव भवन्त्य पञ्चाह भवति पञ्चमानमस्तं वत्सरतुष्वेवदं वत्सरे फल तिष्ठन्त्य पञ्चाह्यपान्तो यज्ञो यज्ञेवावरुन्धरे बाले तद्व्यदछन्दमै यच्छन्दामा भवन्ति दत्तं देव एव पृष्ठेन परुन्धरेन्दो मैरोजो वै वीर्यम् पृष्ठानि पशवश्चन्दो मा भोजस्येव वीर्ये पशुष प्रतिष्ठन्ति सप्तदश रात्रो भवति सप्तदशः सा विराग् विक्रमव्याधिष्ठद्ब्रह्मणा देवेष्वन्देनासुलेषु ते देवागामयन्तो भयगुम् संवृञ्जे मे ब्रह्मजान् नञ्चेता विगुंसदिगौ रात्रेरपश्यन्ततो वैर उभयम् समृञ्जत ब्रह्मजान्न ब्रह्मवत्यशिनान् नादा भवनि एवम् विद्वागुन्धरेता आसुरभयमेव संवृञ्जते ब्रह्मजान्न पुरुषोदशभस्य अङ्गुलयोतशभ्यायामानेव पुरुषस्तमाप्ता तिष्ठन्ति गौरा विरुदित्यः भवन्ति गौरतावानुमानेव लोकानभ्यारोहन्त्यपि पूर्वन्त्यः भवन्त्यपि पूर्वमेव सुभर्गम् लोकमभ्यारोहन्ति पृष्ठानि स्तुर्सर्गस्य मध्ये पृष्ठानि भवन्ति वै वीर्यम् पृष्ठान् षतेष्ठन्ते देवै यज्ञस्याकयन्ति वर्गम् लोकमभ्यारोहन्त्येव राजेनानि पृष्ठान्यभयन्ति प्रत्यग्रहाभवति प्रत्यवलो लोकयो भविता भवता ब्रह्मवर्चलस्यान्नाद्यस्य परिगृहेत्यै असावस्मिन् लोगादे तन् देवा पृष्ठेष् परित्य तु भर्गम् लोकमगमयन् परे नमस्तात् वर्गन्धन्ति वागे तेन सुभर्गे लोके प्रत्यस्थापयन् परे परस्तात् वर्गण्ढन् पृष्ठेतुपावारोहान् स वा असावादित्यस्मिन् लोके हरेर्भय परिगृहे लोगे पृष्ठानि भवन्ति च वर्गमे लोके यजमानायन्ति परे जमस्तात् परिगृह्णन्ति च न्ति वरे परिगृह्णन्ति पृष्ठे कृपापलभन्ते पराञ्जस्वर्गान् लोकान् निष्पद्यस्तान्यस्य प्रजाभिदो दिवागेत्यम्बरस्तावाना भवन्ति सुवर्गे वेदा परिगृह्णन्ति वैदिवागे परस्तावानागेत्यम्बरस्तावानो भवन्ति संवत्सर ेदिभिः पृष्ठं पार्श्वे भवन्त लोकन्न प्रत्यवरोहेवा निवृष्टानि भवन्ति ममेव देल्लोकं प्रत्यवरोहन्त्य सोऽस्मिन्नेव लोके प्रतिष्ठन्त्यनुन्वादायन्द्रोपा प्रतिष्ठितः प्रजापदयपादा भक्तस्पागेतमेकविं श्रीरात्रं प्रागच्छत्तमाहरत्यै नो वेशो रत्यतिष्ठन्ते विभुयाचन प्रतिष्ठिता स्तुस्तकेकविं श्रीरात्रमानेन ुन्द रात्रं चत्तमा भरत्रयनागरितौरों विद्वांस एकविंशति रात्रमासे रोचन्त ष्ठा च विशुंशोदिरात्रस्य परिगृहेत्य सर्वाण्यज्ञः सङ्ग्रामत्वपुष्पाः पुरोहितः तद्देव गर्वेणविष्टन्तम् तस्मिन् हीयस्मान्वेष्टि शरीरमलङ्क्रीडम् तस्मिन् वेष्टि यज्ञे यज्ञस्य यत्ते दस्तेन सङ्ग्रामवामभिः ब्राह्मान् त्रियोदेवान् यज्ञस्य सर्वधा तेधमाहमाहुवे विश्वेण पक्षमुपदेहुवेध माहम् सन्ते वृञ्जेत विदुषम् प्रजाम् पशून प्रेषाम् सामिहेलीनाच्यभागा वाश्रुतम् प्रत्याश्रुनमाशनामिते प्रयाजानुयान् चष्टकन्रमिडा वाशुषः वृञ्जयुवः अग्निनेन्द्रेण सोपेन सरस्पत्याविष्णुना देवताभिःपदेहुवे दे यज्ञमाददेतेषट्कम् सस्तम् परिग्रहम् ग्रहविणामाशुधावृन्दे सुवः यानुपदेहुवेषुराददेतवान् वरोणादासपनान्योतयज्ञम् devan pranam raupadeh <laughs> ubesa bahagyamukha artham avatoge vismeha भोगम् भव्यम् भविष्यहा नवक्षाः नेष्टब् जगदेव रक्षाः नमः पृथव्यम् दरक्षन्द्योल्यावरक्षा नमः प्राणोत्साहा नमः आमे गृहाभवन्ता प्रजामहामायज्ञोभि्यावान् आपो देवे यज्ञयामापि सन्तु सहस्रस्य मा भूमा प्रभासीत् आमे गृहाभवन्तापरोक्ष्मन्द्रे माविषदा आदित्यारुद्रापसवो मे शदस्या सहस्रस्य मा भूमा प्रभासीर आमाग्निप्रभो विषदोक्षातिरात्रो माविषत्तापिधर्वरः त्रिलो अण्डिया वा सुहृता आविशन्तु न हस्रस्य मा भो अखिला तमोन्नुभवद्वाचा ब्रह्म मणिना रूपाणीन्द्रेण देवानुवादेन प्राणान् सूर्येण ज्ञानन्द्रपदा नक्षत्राणिगानजकरेण सत्पाच्छास्मानभेन क्रोधेन वनस्पतेवरेणोर्जङ्गायत्रियानन्द स्तोमान् ब्राह्मणेन वाचम् स्वाहाभिवाधीताग स्वाहा स्वाहाधीतं वन स्वाहा स्वाहा To shte shmaha, to shte duni vayas <laughs> maha, to shte pururu vayas <laughs> maha, vishna vayas maha, vishna vayana gurya vayas maha, vishna lel bhooya vayas maha, zarvas maish maha. दर्घस्वाहा हनो भ्यागस्वाहोष्ठा भ्यागस्वाहा मुखा यस्वाहाभ्यागस्वाहा क्षेद्भ्यागस्वाहा कर्णा भ्यागस्वाः वारयिक्षव भार्ये दःपक्ष व्यक्ताः वारयिक्षव पार्ये स्वाहाष्का यस्वाहा गेशेभ्यस्वाहास्वाहाभ्यस्वाहा कण्ठ भस्वाहा के गदा भस्वाः पृष्टेभ्यस्वाः वायस्या यस्वाहा वागस्वाहा गुण्डाभ्यागस्वाहा दोषभ्यागस्वाहा बाहुभ्यागस्वाहा जङ्घा भ्यागस्वाहा श्रोणेभ्यागस्वाहुभ्यागस्वाहाद्भ्यागस्वाहा जङ्घा क्ताः <Sess> स्वाहागस्वाहास्वाहा <Sess> <Sess> स्वाहा प्रजाभ्यस्ताः प्रजनायस्ताःभ्यस्ताः प्रजेद्भ्यस्ताः नोमभ्यस्ताः प्रजेस्ताः लो विधायस्ताः मागुंसा यस्ताः स्नामभ्यस्ताः स्तभ्यस्ताः मज्जभ्यस्ताःभ्यस्वाहात्मने स्वाहा सर्वस्मै स्वाहा ञता यस्वाहा स्वाहा जिपदे स्वाहा जिगे स्वाहा जिरंझजाय स्वाहापृष्ठा यस्वाहागुङ्गा यस्वाहा पुष्पकर्णा यस्ताः शित्यवृक्षा यस्वाहाभ्रवे स्वाहा चितिपदने स्वाहा श्वेता नोगादाय स्वाहा महाकार दशयक्तः सदृशयक्तः विदर्दयक्तः सुदर्दयक्तः रूपागतः सर्वस्मेष्महा कृष्णा यस्वाहा श्वेताय स्वाः विषङ्गाय स्वाहारङ्गाय स्वाहा ऋणा यस्वाः गौरायस्वाहा स्वाहा न गुणा यस्वाहाता यस्वाहा शोणाय स्वाहा श्यावा यस्वाहा श्यावा यस्वाहायस्वाहारोपायस्वाहाय स्वाहा निरोपायस्वाः सुरूपाय स्ता मूल भ्रस्ता कांडस्ता पुष्प भस्ता फल भ्रस्ता गृहि भ्रस्ता गृहि भस्ता बने भ्यस्ता भ्रस्ता परस्परे भस्वा मूरे भस्वा चूरे भस्वा स्को भस्वा शाखा भस्वा भंडे ः पुष्पे भस्ताः फले भस्ताः लिहेर भस्ताः लिहेज भस्ताः पुण्य भष्टाः सजाने भ्यस्ताः शिष्टा यस्वाः शिष्टायस्वाः फलशिष्टायस्वाः सकम् शिष्टायस्वाहोच्छिष्टायस्ताः रिक्ता यस्वाहारिक्ता यस्वाः रिक्तायस्ताः सकम् ऋक्ताय स्वाहो द्विक्ता युष्पा सर्वस्मै स्वाहा ओ